Aum. ध्यायामो ध्यायामोधबलावकुण्टनवतीम् तेजोमयी नैश्चिकीम् निगावाङ्गविलोकिनीम् भगवतीम् वन्दस्मितश्रीमुखी वात्सल्यामृतवर्षिणीम् सुमधुरम् सङ्गीर्तनालापिनी ्यामाङ्गीम् मधुसिक्तसूक्तिम् अमृतानन्दात्मिकाम् ईश्वरी ॐ अमृतेश्वर्ये नमः ॐ अमृतेश्वर्ये नमः ॐ अमृतेश्वर्यै नमः ॐ गणाना आम् त्वा गणपतिगुम् हवामहे कविम् कवीनामुपमश्रमस्तमम् जेष्टराजम् ब्रह्मणाम् ब्रह्मण पथ आनशण्ण्वम्भृत्तीनम् ॐ श्रीमहागणपतये नमः प्रणो देवी सरस्वती वाजेभिर्वाचिनीवती गणपति अथर्वशिरम् इ् यु ह् द मन्त्रपुष्पं बुक् इस्िक्स्टि एकेडिन् टु त्री भद्रम् कर्णेभिः शृणुयामदेवाः भद्रम् पश्येमाक्षिभिर्यजत्राः स्थिरैरङ्गै स्पृष्ट्वाम् सत्स्तनूभिः यशेमदेव इदम् यदायुः स्वस्ति इन्द्रो वृद्धश्रवाः स्वस्ति हस्तु शा विश्ववेदाः स्वस्ति हस्तां श्लो अरिष्टेमिः स्वस्ति हस्तधातु ॐ शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षम् सत्त्वमसि त्वमेव केवलम् कर्तासि त्वमेव केवलम् धर्तासि त्वमेव केवलम् धर्तासि त्वमेव सर्वम् कल्विधम् ब्रह्मासि त्वम् साक्षादात्मासि नित्यम् ृतम् वच्मि सत्यम् वच्मि अवध्वम् माम् अववक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानुचानमवशिष्यम् अवपष्टाता आदे अवपृहस्ता आदे अभोतरहस्तादे अवदृष्टिहाता आदे अवचोर्द्धाता आदे अवद्राता आदे सर्वतो त्वं वाङ्मयस्वं धन्मयः त्वमानन्दमय स्वं धर्ममयः त्वं तच्चिरा त्वं प्रत्यक्षे warm down on your your arm are you me सर्वं जगदिषं त्वच्चो जायते सर्वं जगदिनं त्वत्तिष्ठति सर्वं जगत्यं त्वयि लय नेष्यति सर्वं जगत्यं त्वयिषे त्वं भूमिरपो नरो निो न भव प्रधाने त्वं गुणत्रयाधीरः त्वम् अवस्थात्रयाधीतः त्वं देहत्रयाधीतः त्वं कालत्रयाधीतः ोऽसि नित्यम् त्वं शक्तित्रयात्मकः त्वां योगिनोऽध्यायन्ति नित्यम् ब्रह्मा त्वम् विष्णस्त्वं रुद्रस्त्वमिन्द्रत्वमग्नि स्वामि णादिम् पूर्वमुद्धार्यस्तदनन्तरम् अनुस्वारः परतरः अर्देन्तुलसितम् कारेण ऋद्धम् एदत्तवमनुस्वरूपम् कारः पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारश्च विन्दुत्तररूपम् नाथः सन्धानम् स्वभुं हिता धन्धिः नैषा विद्या गणगतिषु कृताय तिच्छन्दः गणपति एकगन्दाय विद्महे वक्त्रो दन्दिोदयात् एकदन्तम् चतुर्हस्तम् आशमम्भुजधारिणम् शतञ्च वरदम् हस्ते विभ्राह्मणम्पम् लम्बोदरम् शूर्भकर्णकम् रक्त नुपुष्पैः सु पूजितम् हस्तानुकम्बिनम् देवम् जकरणाचुपातो प्रकृते ए पुरुषात्परं। परम् एवम् ध्यायति यो नित्यम् प्रयोगी योगिनाम् वरः नमो व्रातपदये नमो गणपदये नमः नमस्ते स्तुलम्बोदरायैकदङ्काय विघ्ननाशिने शिवसुधाय वरदमूर्तये नमः शीर्षम् योगीते स ब्रह्मभूयाय कल्पते स सर्वविघ्नेर्न बाध्यते अ सर्वत्र सुखमेथे स पञ्चमहापात्ममुच्यते ध्यायमधीयानो दिवसकृतं पावम् नयते ीयानो धात्रम् सायम् प्रागः प्रयुञ्जानो पावो पावो भवति सर्वत्राधीयानोपविघ्नो भवति धर्मार्थकाममोक्षम् च विन्दते इदमधर्वशीर्षमशिष्यायनधेयम् यो यदि मोहाद्दास्यदि तपादीयान् भवति सहस्रावर्तनाद्यम्यम् काममधीते तम् अधये अनेन गणपतिमभिषिञ्जति स वाग्मी भवति चतुर्थ्यामनश्नम् जपति स विद्यावान् भवति त्यदर्वणभाग्यम् ब्रह्माद्यावरणम् विद्यान्नभिभेदि कदाचनेति योऽ दूर्वाङ्कुरेर्यचति त वैश्रवणोपमो भवति यो लाजैर्यचति स यशोवान् भवति स भवति यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यस्ताज्य समिद्धिर्यजति स सर्वम् लभते स सर्वम् लभते अष्टो ब्राह्मणान् सम्यक् कापयित्वा सूर्यपर्च भवति सूर्यग्रहे महान्द्याम् प्रतिमासन्नितो वा जक्त्वा सिद्धमात्रो भवति मह्य उच्यते मुच्यते महाप्रत्यवाया आमुच्यते स सर्वविद्भवति स एवं विद्युते ॐ A link so that anybody wants to sign up that they are doing it 21 times we're gonna be the other system on Friday Saturday okay so uh, if you can also join that good practice I'll post the link I forgot to post oh. link to the link oh it is up to this point okay I thought you already did it, so okay yeah send it so the thing is you know people can sign up I think it's good practice for us to do because even though you are chanting a lot many others chanting so it choke it like mistakes don't shout chant too loudly if you think you are uh, doubtful but uh, at the same time this will give a lot of practice for us to get okay. yeah since it is a live stream they can't hear us anyway so okay. let's we'll keep chanting for our own uh, so okay so it's good, good practice yeah okay. so let us do rudram and, and that's uh, so who wants to do first anavaka 2nd, 3rd, 4th, 5th, so any pickers? I can start first, Sahari, uh, and it's been a okay. while. So we'll do Chant and Ramo Bhagavad-Rudraya together, then you take over, okay? Okay. So who wants to do the 2nd Anwaga? Or do you want to do 1 and 2, uh, Mahesh? Yeah, sure, I can do 1 and 2, yeah. I want work? to do 2 and 5. Oh, you want to do 2 and 5? 4 and 5 1 2 4 and 5 so then let's go in order so one uh, is already then uh, mahesh is going to do it mahesh will do the shambave namaha right <coughs> also okay okay, okay. then who takes it for 2 1 2 mahesh you are to do 1 and 2 okay okay i'll finish up to that 2 okay so who wants to do 3 i can do 3 okay. and 6 that's the most 3 and 6 4 and 5 is c hari okay now uh, going to 7 who wants to 7 i can do okay. that oh, okay. okay so 7 is uh, gayatri yeah. we Anybody can do it i can do it oh susila ji you'll do it yeah okay who wants to do 9 so i try want to do 9 i can nine. do 9 thank you so much mm -hmm. okay so you will do 7 and 9 then right then you take this for 10 <laughs> there is 10 okay there it is then let's take a little longer one dra bey and the susta de dridhniya lohita dadis number 10 it's a little long so One person can do it because you don't have to do two. Okay, so we'll do 10, 11, 12, 10, 11 and the rest together then, okay? 9, 10, 11. 9 is yeah, somebody yeah, taken, right? 10, 11, yeah. Yeah, so 10, 11 uh, and the Tarayambhang uh, Ajami will do together then, okay? So you don't yeah. know what you are telling, right? So we'll just start with Om Namo Bhagavad-Rudraya, then Mahesh will take over. Okay, ready? रुद्राय ॐ नमस्ते रुद्रमन्यवरुतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषुः शिवतमा शिवम् बभूवते धनुः शिवाशरव्या यातवतया नो रुद्रमृडय याते रुद्रशिवातनूरघोरापापकाशिनी तया नस्तनुवा क्षन्तमया गिरिशन्ताभि चाकशीः यामिशुम् गिरिशन्त हस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि पुंसि पुरुषम् जगत् शिवेन वचसात्वा यथा नः सर्वमिज्जगदयक्ष्मगम् सुमना असत् अध्यवोचदधिवक्ता प्रथमो दैव्योभिषक् अही गिश्च सर्वान् जम्भयन् सर्वाश्च यातु धान्यः अतौ अरुण उद बभ्रः ये चे मागम् अभितो दिक्षुसिता सहस्रशो वैशादुम्हेडीमहे असौ यो वसत्पतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः अत्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करम् नमः प्रमुञ्च धन्वन त्वमुभयोरार्नियोज्ञाम् याश्च ते हस्त इषवः पराता भगवो वप अवतत्यधनुत्वकम् सहस्राक्षशतेषु धे निशीर्यशल्यानाम् मुखाशिवो नस्तु मना भव विद्यम् धनुः कपर्दिनो विशल्यो ुम् उत अनेषन्नस्त्येषव आभुरस्य निषङ्गतिः याते हेतुर्मीडुष्टमहस्ते बभूव ते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधायानातताय विष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् दृणक्तु विश्वतः अथो य इषुधि सवारे अस्मन्निदेहितम् शम्भवे नमः नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकालाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवेशे नान्ये दिशाञ्चपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतयेन मोनमः सत्पिञ्जराय स्विषीमते पथीनाम् पतयेन मोनमो बभ्रुषाय विव्यादिनेन्नानाम् पतयेन मोनमो हरिकेशायोपवीतिने पुष्टानाम् पतयेन मोनमो भवत्य हेत्यै जगताम् पतयेन मोनमो रुद्राया तताविने क्षेत्राणाम् पतयेन मोनमः सूताया हन्त्याय पतये नमो नमो रोहितायस्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तयेवारिवस्तुतायौषधीनाम् पतयेन मो नम उच्चैर्घोषाय क्वन्तयते पत्तीनाम् पतये नो नमः कृष्णवीताय धावते सत्मनाम् पतये नमः नव सहमानाय निव्यादिन आव्यादिनीनाम् पतयेन मो नमः ककुभाय निषङ्गिने ए स्तेनाम् पतयेन मो नमो निषङ्गिन इषुधिमते तस्कराणाम् पतयेन मो नमो वञ्चते परिवञ्चते सायूनाम् पतयेन मो नमो, नमो, नमो, नमो निचेरवे परिचरायारण्यानाम् पतयेन मोनमकाविभ्यो जिगागुंसद्भ्यो उष्णताम् पतयेन मोनमो सिमद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्तानाम् पतयेन मोनम उष्णीषिने गिरिचराय कुलुञ्चानाम् पतयेन मोनम इष्मद्भ्यो दन्वाविभ्यश्च वो न मोनम आतवन्वा आतन्वा आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृज्यद्भ्यश्च वोद्भ्यश्च विसृ विसृजद्भ्यश्च विसृज्यद्भ्यश्च वो नमो नमो स्यद्भो स्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यः शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जागृद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो दावद्भ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ृगणाभ्यदृगं हतीभ्यश्च वो नमो नमोभ्यो वृत्तपदेभ्यो रते य च य च नमः च पशुपतये च नीलग्रीवाय चितिखिखण्ठाय च नमः च युक्तकेशाय च नमः सहस्राक्षाय न शतधन्वने च नमो मेधुस्तमाय चेमते वामनाय च नमो बृहदे चाय च संवृद्मने च fuzzy... नमो अग्रियाय च प्रथमाय च न आशवे चाय च नीतयाय च नम पूर्ण्यायश्नो तस्याय च नमो ओ ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगर्भाय च नमो जगन्याय च बुद्ध्याय च नमः सोभ्याय च प्रतिस्तव्याय नमो याम्याय च क्षेम्याय च नम ऊर्वद्याय च ऊर्वद्याय च कल्याय च नमः श्लोक्याय चावसान्य ्याय च कक्ष्याय च नम श्रवाय च प्रतिश्रवाय च नशुषेणाय चाशु शुरथाय च नम शूराय चाव चावभिन्दते च नमो वर्मिनेच च वरुसिने च नमो विल् च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च चा, नमो धृष्णवे च प्रमुषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमस्तक्ष्णे शवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमसृत्याय च पथ्याय च नमःकाट्याय च नीप्याय च नमः सूद्याय च सरस्याय च नमो च वैशन्ताय च नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च नमो मेघ्याय च विद्या य चातप्याय च नमो वात्याय च रे वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय य च भीमाय च नमो अग्रेवय च दूरेवथाय चन्द्रे च च नमो वृक्षेभ्यो हरिकेशेभ्यो नमःताम्राय नमस्ताराय च नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कुल्याय च नम पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नम आचार्याय चालाद्याय च नमः चेन्न्याय चिक्याय च प्रवाह्याय चिरण्याय च कथ्याय च नमकिगुंशिलाय च यणाय च नम कपर्दिने च पुलस्तये च नमो पोष्ट्याय च गृह्याय च नम तत्स्याय जगेह्याय च नम काट्याय जगह्वरेष्ठाय च नमो ओ हृदयाय च निवेष्ट्याय च नमः पागुंसव्याय च रजस्याय च नम शुष्क्याय च हरित्याय च नमो लोप्याय चोलपस्याय च नम ऊर्व्याय च सूर्म्याय च नम पण्याय च पन्नशत्याय च नमो पगुरुमाणाय चाभिन्नते च चा नमो नम आखिकते च प्रखिकते च नमो वक्तिरिकिरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचन्वित्केभ्यो नम निर्भतेभ्यो नेभ्यः द्राभे अन्धसस्पदे दरिद्रन्नीलोजित येषाम् पुरुषाणामेषाम् पशूनामाभिर्मारोमो येषाम् कीदृणामते याते रुद्रशिवा तनू शिवाभि शिवाः केषजी शिवा रुद्रस्य भेषजीतया नो मृड जीवते इमाकम् रुद्राय तव सेकवर्तिने हयद्वीराय प्रभरामहेमतिम् यदा न शमसन्विपदे ोतयत् मानो महान्तनोदम् मानो हते मानकमानो रुद्रीकुषः मानस्तुकेतनयेनो रुद्रभामितो नेहदे राते रक्षाय चरणं दी महात्मरा अवृत <mimitation> हृदय <mimitation> विनयोऽष्टपयस्य कथामासि मे वो मनगो मत्सु मनोभव परमं प्रकृयोऽपि विनाय आयो वृद्धज्ञानमाचतना विद्धतागैवदि विजयविभूतविलोहितनमत्रे सत्यभगवान् ्रगमे सहस्राहि सहस्र सहस्राणि सहस्र ेषानुभक्ति अस्मिन् मा भर्पणव्य रूपान् अधिकजिवान् हे अनेषु ये ये वैश्यतिशो एयो मो नरे वरा ेषु नाम कयंजामहे ो अस्तु य विश्व अयमय अयं मे विश्ववेयुवाभिमरुज्यायवे का नित्य मायुजा मृत्यभिः यि पति प्राणा किरणे विरमान्त So for the Samagam, the same thing. So who wants to do um, the first Anubhaka? Uh, I can, can do it. Okay. Go ahead. Go ahead. I so don't know if you decide which one. Okay, I will do it. अह न विष्णु मुहूर्त घोष सेमावत मतलब रनिंग ले ले बेटा ढूंढो उठो एंड देन वी विल गो ओके अदरवाइज यू हैव टू स्टॉप आफ्टर एवरीथिंग राइट ओके सो हु आर यू आर डूइंग नंबर 1 एंड हु इज डूइंग नंबर 2 हाई सिंगल ओके नंबर 2 हु डोंट्स डू नंबर 3 आई कैन डू 3 ओके सुजादा नंबर 3 नंबर 4 I can do it early uncle number four you will do. Yeah, and I'll do number five off. OK, number four and number five is here a good number six. I'll do number six. Uh, OK, number six. OK, anybody for number seven. I, I can do, do it. it. Okay. Oh, OK, you do it. So you know, number seven, number eight. I should do that. Okay. Asujada number eight, number nine. Nobody for number nine. Huh? I'll do it. Okay. Okay. Number nine is uh, Mahesh. Anybody number ten? Okay. So ten onward, we'll do together then. Okay. Okay. You ready, Sushila ji? Yeah. ओके 1 2 3 5 अज्ञा विष्णुः सजोशसेनमर्थन्तु लाङ्गिरह दुन्निर्वाजीभिरागतम माजक्यमेतेमे प्रसवच्छम् भेयतिश्चमे प्रसितचमे जीतिश्चमे कृतुषमे हे विष्णु हेश महेश शिष्याजी नंबर 1 सॉरी सॉरी वाचश्च मे प्रसुवश्च मे प्रयतिश्च मे प्रसृतिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च चित्तञ्च म आधीतञ्च मे, मे, मे, मे, मे, मे, मे, आधी मे वाक्च शुश्च मे श्रोत्रं च मे रक्षं च मे बलं च म ओजश्च मे सहश्च मयुश्च मे जरा च मत्मा सत्यञ्च मे मन्युश्च मे भामश्च मे मश्च मे अम्भश्च मे जेमाच मे महिमा च मे परिमाच वृद्धञ्च मे वृद्धिश्च मे सत्यञ्च मे श्रद्धा च धनञ्च मे वशश्च मे शिश्च मे क्रीडा च मे मोदश्च मे जातञ्च मे जनिष्यमाणञ्च मे सूक्तञ्च मे सुञ्च मे वित्तञ्च मे तिश्च मे शञ्च मे मयश्च मे प्रियं च मेनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रञ्च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं संविच्च मे ज्ञात्रञ्च मे सुश्च मे प्रसूश्च मे तीरं च मे दयश्च मृतञ्च मे मृतञ्च मे यक्ष्वञ्च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वञ्च मेन मे भयं मे सुगञ्च मे मे सुशाच मे मे चे पयश्चने यशश्चने घृतं मधुचने शब्धिश्चे पीतिश्चने भिने चैत्यं चितं चने वैश्चने रायश्चने पुष्टं चे पुष्टिश्चने विभुचने प्रभुचने बहुचने भूयश्चने पूर्णतरं ष्टमे खल्वाष्टमे गोधूमा आष्टमे मथुरा आष्टमे वश्चमे नवश्चमे श्यामाका आष्टमे निवाराष्टमे अस्माच मे मृत्तिकाश्च मे गिरयश्च मे पर्वताश्च मे हिरण्यं च मे यश्च मे शीतं च मे नपुश्च मे श्यामं च मे लोहं आरण्याश्च यज्ञेन कल्पन्तां वित्तं च मे इन्द्रश्च मे सोमश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे भाताचम च म इन्द्रश्च मे धाता च इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेष्विनौ देवा इन्द्रश्च मे पृथिवी चम इन्द्रश्च श्च मे रुश्निश्च मे दा आभ्यश्च मेधिपतिश्च म उपागुंसुश्च मेन्दर्यामश्चम ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्तानश्च मे शुक् ्रश्च मे मन्दीजम आक्रयणश्च मे वैश्वदेवश्च मे धुवश्च मे वैश्वानरश्च मृदुग्रह्या ऋदुग्रह्याश्च मे विग्राह्या सावित्वश्च मे सारस्वश्च मे पौष्णश्च मे पीवृतश्च मे हारियोजनश्च मे विद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्ण्याश्च मे सृचश्च मे चमसाश्च मे ग्राव ग्रावाणश्च मे सरस्वत सरस्वश्च स्वरश्च मे स्वरश्च स्वरवश्च म उपरवाश्च मे दिशवणे च मे द्रोणकलश्च मे वायव्यानि च मे पूतभृच्चम अग्निश्च मे घर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मेष्व मे दश्च मे पृथिवी च साम च मे दीक्षाचमे मे यजुश्च मे दीक्षा च मे यज्ञेन कल्पेताम् गर्बा आश्चेवाच्यूमे धेनुश्च कल्पदानो यज्ञेन कल्पदां ज्ञानो यज्ञेन कल्पदा कल्पदा गोत्रं यज्ञेन कल्पदां मनो यज्ञेन कल्पदां कालेन कल्पदा यज्ञेन कल्पना पर्यज्ञो यज्ञेन कल्पतः एका च मे अधिस प्रिम्टाइब चाहिए अधिस अधिस अधिस अधिस अधिस ोढ सत्यं कृषिष्ठतिष्ठति चतुश्चिगुम्भं दर्वारिं सत्यमे वर्षा भुवनश्चाधिपतिश्च े बहूर्मनुर्यज्ञनीश्वे अधुजनिश्वे मधुपत्या मधुपत्या मधुमनि मध्ये वा dejna parshe viniyabba avam devang bhuto vai adidudu bomcha dikcha eti very good so how did everybody feel it good it good, It's good. you so know you have the confidence that we can do it right yeah yeah yes yes yeah, so next practice take up another paragraph so that way the thing is you are practicing different paragraphs at the same time so this way all the things will be practiced throughout so so this was okay recitation right? the recording so if you have any questions you can listen to it as well and see uh, anything you want to look at or anything you can listen to that and let me know okay we okay. so shall we do three local Samastha and stop here today okay and, and I really will do that thing so if you want to sign up for the nobody other sister you can do 21 times the during uh, Friday Saturday so I'll send it down no. okay thank you ॐ लोकाः समस्ताः श्रुतिनो भवन्तु लोकाः समस्ताः श्रुतिनो भवन्तु लोकाः समस्ताः श्रुतिनो भवन्तु शान्ति शान्ति शान्ति ॐ हरिः ओ